ब्रह्माण्डपुराणं पूर्वभागम् अध्यायं ट्वेन्टि वन् आदित्यव्यूहकीर्तनं सूत उवाच सूर्याचन्द्रमसा वेदौ भ्रमदो यावदेवदु प्रकाश्यैस्तु प्रभाभिस्तौ मण्डलाभ्यां समुच्छ्रितौ सप्तानां तु समुद्राणां द्वीपानां स तु विस्तरः विस्तरार्थे पृथिव्यास्तु भवेदन्यत्र बाह्यदः पर्यासपरिमाणं तु चन्द्रादित्यौ प्रकाशदः पर्यास्तात् पारिमाण्येन भूमेस्तुल्यं दिवं स्मृतम् अवदिमालोकान्स्मत्सूर्य परिभ्रमन अभी धा प्रकाशाख्यो ह्यवस रमृत अध पर प्रवक्षा प्रमाण चंद्र सूर्यो महित्वान्मीशब्दो हस्वर्षे निपज्य दे अस्य भारतवर्षस्य विष्कम्भात्तुल्यविस्तृतं मण्डलं भास्करस्याध योजनानि निबोधत नवयोजनसाहस्रो विस्तारो भास्करस्य तु विस्तारात् त्रिगुणश्चास्य परिणाहस्तु मण्डले विष्कम्भमण्डलाच्चैव भास्कराद्विगुणः अथ पृथिव्या वक्ष्यामि प्रमाणं योजनैः सह सप्तद्वीपसमुद्राया विस्तारो मण्डलं च यद् इत्येतदिकसङ्ख्यादं पुराणे परिमाणतः तद्वक्ष्यामि समाख्याय साम्प्रतैरभिमानिभिः भिमानिनोऽव्यदीता ये तुल्यास्ते साम्प्रतैस्त्विह देवा ये वै व्यदीतास्तु रूपैर्नामभिरेव च तस्मात्तु साम्प्रतैर्देवैर्वक्ष्यामि वसुधातलं दिवास्तु सन्निवेश्यं वै साम्प्रतैरेव कृष्णशः शताकोटि विस्तरा पृथिवी कृष्ण स्मृता तस् ऊर्धप्रमाणन मेरो संस्थित पृथिव्याजनाग्रा प्रकर्ति मेरो मध्या प्रतिदिशिका स्मृता तथा शादसहस्राणामेकोननवधिपुनः पञ्चाशत्सहस्राणि पृथिव्यर्थस्य मण्डलं गणितं योजनाग्रातु कोट्यस्त्वेकादशस्मृताः तथा शतसहस्राणि सप्तत्रिंशाधिकानि तु इत्येतदिकसंस्यादं पृथिव्यं तस्य मण्डलम् तारकासन्निवेशास्य दिवि यावच्च मण्डलं पर्याससन्निवेशश्च भूमेर्यावत्तु मण्डलम् पर्यासपरिमाणेन भूमेस्तुल्यं दिवस्मृतं सप्तानामपि द्वीपानामेधस्थानं प्रकीर्तितं पर्यायपरिमाणेन मण्डलानुगतेन च उपर्युपरि लोकानां संस्थितिर्विहि सर्वा येषु तिष्ठन्ति जन्तवः संस्थितिर्विहिदा सर्वा येषु तिष्ठन्ति जन्तवः ये दण्डकपालस्य प्रमाणं परिकीर्तितम् अण्डस्यां तस्त्विमे लोका भूर्लोकश्च भुवर्लोकस्तृतीयसृदि स्वतः महर्लोको जनश्चैव तपःसत्यं च सप्तमं ये ते सप्त कृता लोकाश्चत्राकाराव्यवस्थिताः स्वकैरावरणैसूक्ष्मैर्धार्यमाणा पृथक् पृथक् दशभागाधिकाभिश्चताभिप्रकृतिभिर्बहिः पूर्यमाणविशेषैश्च समुत्पन्नैः परस्पराद् अस्यान्धस्य समन्ता समन्ताच सन्निविष्टो खनो दधिः पृथिव्या मण्डलं कृष्णं खनतोयेन धार्यते खनो दधि परेणाथ धार्यते खनतेजसा बाह्यतो घनतेजश्च तिर्यघूर्ध्वं तु मण्डलं समन्ताद्धनवादेन धार्यमाणं प्रतिष्ठितम् घनवादं तथाकाशमाकाशं च महात्मना भूतादिनावृतं सर्वं भूदादिर्महदावृतः मृतो महाननन्तेन प्रधानेना व्ययात्मना पुराणिलोकपालानां प्रवक्ष्यामि यथा ज्योतिर्गुणप्रचारस्य प्रमाणपरिसिद्धये मेरोः प्राच्यां दिशि तथा मानसस्यैव मूर्धनी वस्वौकसारा माहेन्द्री पुरी हेम मा परिष्कृता दक्षिणेन पुनर्मेरोर्मानसस्यैव वा मूर्धनी वैवस्वतो निवसति यमः संयमने पुरे प्रतीच्यां तु पुनर्मेरोर्मानसस्यैव मूर्धनि सुखा नाम वरुणस्यापि धीमतः वरुणो यादशां नाथः सुखाख्ये वसते पुरे दिश्युत्तरस्यां मेरोस्तु मानसस्यैव मूर्धनि तुल्या महेन्द्र पुल्यास्तु सोमस्यापि विभावरी मानसोत्तरवृष्टे तु लोकपालाश्चतुर्दिशं स्थिता लोकमं रक्षणाय च लोकपालोपरिष्टात्तु सर्वतो दक्षिणायने काष्ठागतस्य सूर्यस्य गदियातां निबोधत मादाय सततं परिगच्छति मध्यगश्चामरावत्यां यदा भवति भास्करः वैवस्वदे संयमदे उदयस्तत्र दृश्यते सुखाया मर्धरात्रं स्याद्विभाया मस्तमेति च वैवस्वदे संयमने मध्यगस्याद्रवीर्यदा सुखायामथ वारुण्यामुत्तिष्ठन् सदु दृश्यते विभायामर्धरात्रं स्यान् माहेन्द्यामस्तमेति च यदा दक्षिणापरदेश्यानां पर पूर्वाह्णः परिकीर्तितः तेषामपररात्रश्च ये जना देशा उत्तर देशाउ उत्तरपूर्वा ये पूर्वरात्रस्तुतामेरेको भुवनशु विराज दे सुखाया सद वु्या मध्याने चार्यमदा विभायां वा, वेषति विभासु रात्र्यार्थचामरावत्या मस्तमेधि यमस्य च सोमपुर्याविभायां तु मध्याह्ने स्याद्दिवाकरः सूर्य उत्तिष्ठदे तदा अर्धरात्रं संयमने वारुण्यामस्तमेति च सशीघ्रमेव पर्येदि चत्रवद भ्रमन्वै भ्रममार्णानि वृक्षाणि चरदे रविः एवं चतुर्षु पार्श्वेषु दक्षिणां तेन सर्पदि उदयास्तमने च स वृत्तिष्ठति पुनःपुनः पूर्वाने परे चव दलयर्क मध्याने तैरवस्वश्भ उदिदर्धमध्यावन्द्री अथ परस तीर्गोरस्त निगछी उदयास्तमयाभ्यां च स्मृते पूर्वापरे दिशौ यावत्पुरस्तात्तपदि तापत्पृष्ठेथ पार्श्वयोः यत्रोद्यं दृश्यते सूर्यस्तेषां स उदयस्मृतः प्रणाश्यं गच्छते यत्र तेषामस्त स उच्यते सर्वेषामुत्तरे मेरुर्लोकालोकश्च दक्षिणे विदूरभावादर्कस्य भूमिलेखावृतस्य च लीयन्ते रश्मयो यस्मात्तेन रात्रौ न दृश्यते ग्रहनक्षत्रसोमानां दर्शनं भास्करस्य च उच्छ्रयस्य प्रमाणेन ज्ञेयमस्तमधोदयं शुक्लच्छायोग्निरापश्च कृष्णच्छाया च चा मेदिनी विदूरभावादर्कस्य क्षुद्यतेऽपि विरश्मिता रक्तभावो विरश्मत्वाद्रक्तत्वाच्चप्यनुष्णता लेखायामास्तिदस्सूर्यो यत्र यत्र च दृश्यते ऊर्ध्वशादसहस्रधुर्यो जनानां स दृश्यते प्रभाहि सौरीपादेन ह्यस्तं गच्छति भास्करे अग्निमाविशदे रात्रौ तस्माद्धूरात् प्रकाशते उदिते हि पुनः सूर्यै ह्यौष्ण्यमाग्नेयमाविषेद संयुक्तो वह्निना सूर्यस्तपदे तु दिवा प्राकाश्यं च तदौष्ण्यं च सौराग्ने ये च तेजसी परस्परानुप्रवेशादीप्येदे तु दिवानिशम् उत्तरे चैव भूम्यार्थे तथा तस्मिंश्च दक्षिणे उत्तिष्ठति तथा सूर्ये रात्रिराविशतत्वपहार तस्माच्चीता भक्त्याम्भो दिवा रात्रिप्रवेशनाद् अस्तं याति पुनः सूर्ये दिनमाविशदे त्वषः तस्माद्धुष्णा भवत्याभो नक्तमह्नप्रवेशनाद् यदेन क्रमयोगेन भूम्यर्धे दक्षिणोत्तरे उदयास्तमनेऽर्कस्य अहोरात्रं विशत्यपः देनं सूर्यप्रकाशाख्यं तामसी रात्रिरुच्यते तस्माद्व्यवस्थिता रात्रिसूर्यापेक्षमहस्मृतं एवं पुष्करं मध्येन यदा सर्पदिभास्करः अंश मेदिनिया मुहूर्ते नोजनाग्र मुहूर्त सेह संख्या पुनशद्रणकत्रिशाधिकृत पंचाश्त सहस्राण्यधिक मुहूर्ति की गतिषा सूर्यस्य दुविधीयते यदेन गतियोगेन यदा काष्ठां तु दक्षिणां पर्यागच्छेत् पतङ्गोस्सौ मध्ये काष्ठान्तमेव हि मध्येन पुष्करस्याध भ्रमदे दक्षिनायने। मानसोत्तरशैले तु अन्तरे विशुभं च सर्पदे दक्षिणायां तु काष्ठायां वै निबोधत नवकोट्यप्रसङ्ख्यादा यो जहैपरिमण्डलं तदा शतसहस्राणि चत्वारिं षट् च अहो अहोरात्रापदङ्गस्य गतिरेषा विधीयते विशुवस्तो विषुवत्थो यदारविः क्षीरोदस्य समुद्रस्योत्तरतश्चाद्रितश्चरन्मण्डलं विषुवत्तस्य योजनैस्तन्निबोधत तिस्रकोट्यस्तुसङ्ख्यादा विषुवस्यापि मण्डलम् तथा शतसहस्राणामशीत्येकाधिका पुनः श्रवणे चोत्तरषाढे चित्रभानुर्यादा भवेत् शाकद्वीपस्य षष्ठस्य उत्तरादो दिशश्चरन् उत्तरायाः प्रमाणं च काष्ठाया मण्डलस्य च योजनाग्रात् प्रसङ्ख्यादा कोटिरेखा तु सद्विजाः अशीतिर्नियुतानीह योजनानां तथैव च अष्टपञ्चाशतं चैव योजनान्यधिकानि तु नागवीध्युत्तरावी ह्यजवीधी च दक्षिणामूलं चैव तथा शाढे त्वजवीद्युदयास्त्रयः अश्विनीकृत्तिगायाम्यं नाघवीद्युदयाश्रयः काष्ठयोरन्दरं यच्च तद्वक्ष्ये यजनैः पुनः एतशतसहस्राणामष्टाभिश्चोत्तरं शतं त्रयश्शताधिकाश्च अन्ये त्रयस्त्रिंशच्च योजनैः काष्टयोरन्तरं ह्ये दद्योजनाग्रात् प्रकीर्तितं काष्टयोर्लेखयोश्चैव्यन्तरं दक्षिणोत्तरे केन्वक्ष्ये प्रसङ्ख्याय चोजनैस्तन्निबोधत एकैकमन्तरं तस्य वियुतान्येकसप्ततिः सहस्राण्यतिरिक्ताश्च ततोऽन्या पञ्चसप्ततिः लेखयोः काष्टयोश्चैव बाह्याभ्यन्तरयो स्मृतम् अभ्यन्तरं तु पर्येदि मण्डलान्युत्तरायणे बाह्यदो दक्षिणे चैव सततं तु यथाक्रमं मण्डलानां शतं पूर्वं अधिकमुत्तरम् चरदे दक्षिणे चापि तावदेव विभावसुः प्रमाणं मण्डलस्याध योजनाग्रं निबोधत योजनानां सहस्राणि सप्तादशसमासतः शते द्वे पुनरप्यन्ये योजना मां प्रकीर्तिते एकविंशतिभिश्चैव योजनैरधिकर्हिते ये तत्प्रमाणमाख्यातं योजनैर्मण्डलस्य च विष्कम्भो मण्डलस्याध तिर्यक्षतुविधीयते प्रत्यहं चरते तानि सूर्या वै मण्डलक्रमाद कुलालचक्रपर्यन्तो यथा निवर्तते दक्षिणप्रक्रमे सूर्यस्तथा शीघ्रं प्रवर्तते तस्मात् प्रकृष्टां भूमिं तु काले नाल्पे न गच्छति सूर्ययो द्वादशभिश्चैख्यान्मुहूर्तैर्दक्षिणायने त्रयोदशार्धवृक्षाणामग्नादु चरधेरविः मुहूर्तैष्टावदृक्षाणि नक्तमष्टादशैश्चरन् कुलालचक्रमध्ये तु यथा मन्दं प्रसर्पति चाधोदगयने सूर्यसर्पदे मन्दविक्रमः तस्माद्दीर्घेन कालेन भूमिं स्वल्पानि गच्छति अष्टादशमुहूर्त उत्तरायणपश्चिमम् अहो भवति तच्चापि चरदे मन्दविक्रमः त्रयोदशार्धं माध्येन तुर्षाणां चरते रविः मुहूर्तैस्तावदृक्षाणि न तन् द्वादशभिश्चरन् ततो मन्दतरं नाभ्यां चक्रं भ्रमति वै यथा मृक्पिण्ड इव मध्यस्थोद्ध्रुवो भ्रमदि वै तथा त्रिंशन्मुहूर्तानेवाहुरहोरात्रं ध्रुवो भ्रमन् उभयोः काष्ठयोर्मध्ये भ्रमदे मण्डलानिदु कुलालचक्रनाभिश्च यथा तत्रैव वर्तते ध्रुवस्तथा हि विज्ञेयस्तत्रैव परिवर्तते उभयोः कष्टयोर्मध्ये भ्रमदे मण्डलानि सह दिवा नक्तं च सूर्यस्य मन्दा शीघ्रा च वै गतिः उत्तरप्रक्रमे चापि दिवा मन्दा गतिस्तथा तथैव च पुनर्नक्तं शीघ्रा सूर्यस्य वै दक्षिणप्र मेणैव दिवा शीघ्रं विधीयते गतिसूर्यस्य नक्तञ्च मन्दा चैव गतिस्तथा एवं गतिविशेषेण विभजन् रात्र्यहानिधो तजापि सञ्चरन्मार्गं समेन विषमेण च लोकालोकस्थिताक्ष्यदे लोकपालाश्चतुर्दिशम् अगस्त्यश्चरदे तेषामुपरिष्टाज्जवे न तु भुञ्चन्नस् अपहोरात्रमेवं गतिविशेषणं दक्षिणे नागवीध्यास्तु लोकालोकस्य चोत्तरे लोकसन्तानकोक्ष्येष वैश्वानरपथाहिः पृष्टे यावत्प्रभा पुरस्तात् सम्प्रकाश्यते पर्श्वतपृष्ठतश्चैव लोकालोकस्य वर्तते योजनानां सहस्राणि दशकं तुच्छ्रितो गिरिः प्रकाशश्चाप्रकाशश्च सर्वथ परिमण्डलः नक्षत्रचन्द्रसूर्यश्च ग्रहैस्तरागणैः सह आभ्यन्तरं प्रकाशन्ते लोकालोकस्य वैगिरेहे येतावानेवलोकस्तु वा निरालोकस्ततः परं लोकेनालोकवानेष निरालोकस्त्वलोकतः लोकालोकं तु सन्तत्ते यस्मात्सुर्यपरिग्रहम् तस्मात् सन्ध्येदितामाहुरुषा व्युष्ठोर्यदन्तरम् उषा रात्रिस्मृताभिप्रैर्व्युष्ठिश्चापि त्वः स्मृतं सूर्याग्निग्रसमानानां सन्ध्याकाले हि रक्षसां प्रजापतिनियोगेन शापस्त्वेषान् दुरात्मनाम् अक्षयत्वं दुदेहस्य प्रापितामृणं तथा तिस्रकोट्यस्तु विख्याता मन्देहा नामराक्षसाः राक्षसाः प्रार्थयन्ति सहस्रां शुभुदयन्तं दिने दिने तापयन्तं दुरात्मा नः सूर्यमिच्छन्ति खादितुम् अध सूर्यस्य तेषां च युद्धमासीत् सुदारुणं ततो ब्रह्मा च देवाश्च ब्राह्ममाश्चैव समुपासीनाप्रक्षिपन्ति जलं सदा ओङ्कारब्रह्मसंयुक्तं गायत्र्या चाभिमन्त्रितं स्फूर्ज्योतिश्च चाण्डांश्युस्तधादीप्यदिभास्करः ततः पुनर्महातेजा महाबलपराक्रमः योजनानां सहस्राणि ऊर्ध्वमुत्तिष्ठते शतं प्रयाति भगवान्नाश्युब्राह्मणैरभिरक्षितः वा लखिल्यैश्च मुनिभिर्धृतार्चिः समरीचिभिः काष्ठानिमेषा दशपञ्च त्रिंशश्च काष्ठा गणयोत्कलान्तु त्रिंशत्कलाश्चापि भवेन्मुहूर्तस्तैस्त्रिंशदा रात्र्यहनिसमेदे ह्रासवृद्धित्वहर्भागैर्दिवसानां यथाक्रमाद सङ्ख्यामुहूर्तमात्रा तु ह्रासवृद्धिस्तु सा स्मृता लेखाप्रभृत्यधादित्ये त्रिमुहूर्तगदे तु वै प्रादस् तदस्मृतकालो भागश्चाग्नश्च पञ्चमः तस्मात् प्रास्तनात्कालात्त्रिमुहूर्तस्तु सङ्गवः मध्याह्नस्त्रिमुहूर्तस्तु तस्मात्कालश्च संगवाद् तस्मान्माध्यन्दिनात्कालादपराह्ण इति स्मृतः त्रय एव मुहूर्तास्तु कालागस्मृतो बुधैः अपराह्नेव्यधिते तु कालसायान्न उच्यते दश पञ्च मुहूर्ताह्नो मुहूर्तास्त्रय एव च दश पञ्च मुहूर्त वै ह्यः स्मृतम् वर्धन्ते च ह्रसन्ते च ह्ययने अहस्तु ग्रसदे रात्रिं रात्रिश्च ग्रसदे त्वहः शरद्वस्संतयोर्मध्यं विशुवत्परिभाव्यदे अहोरात्रे कलाश्चैव समं सोमः समश्नुदे तथा पञ्चदशाहनि पक्ष इत्यभिधीयते द्यौ च पक्षौ भवेन्मासो द्वौ हृदु हृदयमयने द्वे हि तु सौरकं निमेशा विद्युतश्चैव काष्ठास्ता दश पञ्च च कलास्तास्त्रिशतः काष्ठा मात्रा शीतिद्वयात्मका सप्तैका त्रयो मात्रा त्रयोविंशन्मात्रायाश्च कला भवेद् चत्वारिशत्सहस्राणि शतान्यष्टौ च विद्युतः सप्ततिश्चैव तत्रापि नवतिं विद्धि निश्चये चत्वारि एव शतान्यहुर्विद्युते द्वे च संयुते ेशे नाटिकाचात्र संवत्सरा दयापदुर्मा विकता युगमीधीये संवत्सरस्तु प्रथमो द्वितीय परवत्सर युद्धस्तु चतुर्धश्चानुवत्सरः पञ्चमो वत्सरस्तेषां कालस्तु युगसंहितः त्रिंशत् शतं भवेत्पूर्णं पर्वणां तु रवेर्युगे शतान्यष्टादशत्रिंशदुदयाद्भास्करस्य च पृथवस्त्रिंशतः सौरादयनानिश्चशैव तु मासस्तु पंच चिशतर्षंकरोरात्रस्त मसस्थ भास्कर एकोरात्रुरेको विभा दिश्यदं चाप्यधिगं भवेद मानं तच्चित्रभानोस्तु विज्ञेयमयनस्यः सौरं सौम्यं तु विज्ञेयं नाक्षत्रं सावनं तथा मानान्येदानि चत्वारि यैः पुराणे हि निश्चयः यश्वेदस्योत्तरश्चैव शृङ्गवान्नामपर्वतः त्रीणि तस्य दुःशृङ्गाणि स्पर्शन्तीव नभस्थलं तैश्चापि शृङ्गैशनगः शृङ्गवानिधि कथ्यते एकश्च मार्गविष्कम्भविस्तारश्चास्य कीर्तितः तस्य वै मध्यमं तद्धिरन्मयम् दक्षिणं राजदं चैव शृङ्गं तु स्फटिकप्रभं सर्वरत्नमयं चैव शृङ्गमुत्तरमुत्तमम् एवं कोडैस्त्रिभिः शैलशृङ्गवानिरिविश्रुतः यत्तद्वै पूर्वतशृङ्गं तदर्कप्रतिपद्यते शरद्वसं तयोर्मध्ये मध्यमां गतिमास्थितः अदस्तु्यमहोरात्र करोपहरिता हया दिव्यास्तस्य दिव्यासुक्ता महारथे अव भांद पदर्गभस् मूलाते जोध स्मृद मुहूर्ता दश पचोरात्रि कृत्तिकानां यदा सूर्यप्रथमां शगदो भवेद् विशाखानां तदा निशाकरः विशाखानां यदा सूर्यश्चरतेशं तृतीयकं तदा चन्द्रं विजानीयात् कृत्तिका शिरसि विशुवन्तं विजानीया देवमाहुर्महर्षयः सूर्येण विशुवं विद्यात् कालं सोमेन लक्षयेत् समारात्रिरसश्चैव यदा तद्विशुवं भवेद् तदा दानानि देयानि पितृभ्यो विशुवेषु च ब्राह्मणेभ्यो विशेषेण मुखमे दत्तु दैवतं कलाकाष्टा मुहूर्तकाः पौर्णमासी अमावास्या तथैव च शिनिवाली कुहूश्चैव राका चानुमतिस्तथा तपस्तपस्यौ मधुमाधवौ च शुक्रशुचिश्चायन मुत्तरं स्याद नभो नभस्याविष ऊर्जसंज्ञौ सह सहस्याविदिदक्षिणं स्याद हार्तमा च तदोज्ञया पञ्चाब्दा ब्रह्मणा सुताः तस्माच्च ऋतवोज्ञया तस्मादृतं मुखी ज्ञेया अमावास्यास्य पर्वणः तस्मात् विशुभं ज्ञेयं पितृदेवहितं सदा पर्वज्ञात्वा न मुह्येद पित्र्ये दैवे च मानवः तस्मात् स्मृतं प्रजानां वै विषुवत्सर्वगं सदा आलोकात्तु स्मृतो लोको लोकालोकस्य उच्यते लोकपालास्तिदास्तत्र लोकालोकस्य मध्यतः चत्वारस्ते महात्मानस्तिष्ठन्तं त्या भूतसम्प्लवाद सुधामा चैव वैराजकर्दमः हिण्य रोर्जन्युमानाजस निर्द्वन्वा निरभ निष्परीग्रहा दाह लोका लोके च दुर्दीश उत्तर यतपस्त वीध्या दक्षिणा पितृयान स वैपन्थ वैश्वानरपथा तत्र सद प्रजावंदो मुन यग्निहोत्रिण लोकसरा पितृयान पथे स्थिता भूताररंभिषोत्गुता प्रारम्भदे लोककामास्तेषां पन्थास दक्षिणाः चलिधन्ते पुनर्धर्मं स्थापयन्ति युगे युगे सन्तप्तास्तपसा चैव मर्यादाभिश्रुतेन च जायमानास्तु पूर्वे वै पश्चिमानां गृहेष्विह पश्चिमाश्चैव पूर्वेषां जायन्ते निधनेष्वपि येवमा वर्तमानास्ते तिष्ठन्त्या भूतसम्प्लवाद अष्टाशीतिसहस्राणि ऋषी मां गृहमेधिनां सवितुर्दक्षिणं मार्गश्रुता स्याच्चन्द्रतारकं क्रियावदां प्रसङ्ख्यैषा ये भेजिरे लोकसंव्यवहाराश्च भूतारम्भकृतेन च इच्छाद्वेषप्रवृत्या च मैथुनोपगमेन वै तथा कामकृतेनेहसेवनाद्विषयस्य च एतैस्तै कारणै सिद्धा ये, ये श्मशाननि भेजिरे। प्रजैषिणस्ते मुनयो द्वापज्नागवीद सप्तर्षि गणदक्षिण उतर स विदु पंथ दान्च सृद सिद्धा विमला ब्रह्मचारीण सन्ततिं ते जुगुप्सन्ते तस्मान् मृत्युस्तु तैर्जितः अष्टाशीतिसहस्राणि ऋषीणामूर्ध्वरेदसाम् उदक् पन्थानमत्यर्थं श्रुता ह्याश्रितः सम्प्लवाद् ते सम्प्रयोगाल्लोकस्य मैथुनस्य च वर्जनाद् इच्छाद्वेष निवृत्याज भूतारम्भविवर्जनात् पुनश्च कामसंयोगाब्दादेर्दोषदर्शनात् इत्येथैः करणैः सिद्धास्ते मृतत्वं शिभेजिरे आभूतः सम्प्लवस्थानामृतत्वं विभाव्यते त्रैलोक्यस्थितिकालाय पुनर्दाराभिगामिनां भ्रूणहत्याश्वमेधाभ्यां पुण्यपापकृतो परे आभूतसम्प्लवान्ते दुःक्षीयं ते ह्यूर्ध्वरेदशः ऊर्ध्वोत्तरमृषिभ्यस्तु ध्रुवो यत्र स वैस्मृतः ये दद्विष्णुपदं दिव्यं तृतीयं व्योम्निभास्वरम् यत्र गत्वा न शोचन्ति तद्विष्णोः परमं पदं धर्मध्रुवाध्यास्तिष्ठन्ति यत्र ते लोकसाधकाः इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्खपादे आदित्यव्यूहकीर्तनं नामैकविंशतितमोऽध्यायः Oom